मार्कण्डेयपुराणम् अध्यायं फिफ्टि त्रि क्रौस्तुगिरुवाच स्वायम्भुवं त्वयाख्यातमेदन्मन्वन्तरञ्च यद् तदहं भगवन् सम्यक् श्रोतुमिच्छामि कथ्यताम् मन्वन्तरप्रमाणं च देवादेवर्षयस्तथा ये च क्षुतीशा भगवन् देवेन्द्रश्चैव यस्तथा मार्कण्डेय उवाच मन्वन्तराणां सङ्ख्यादा साधि काह्येकसप्ततिः मनुषेण प्रमाणेन शृणु मन्वन्तरञ्च मे त्रिंशत्कोट्यस्तु सङ्ख्यादासहस्राणि च विंशतिः सप्तषष्टिस्तधान्यानि नियुतानि च संख्यया मन्वन्तरप्रमाणं च इत्येतत् साधिकं विना अष्टौ शतसहस्राणि दिव्यया सङ्ख्यया स्मृतं द्विपञ्चाशत्तधान्यानि सहस्राण्यधिकानि च स्वायम्भुवो भुवो पूर्वं मनुःस्वारोचिषस्तथा औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा षडेदे मनवोतीतास्तथा वैवस्वतोऽधुना सावर्णिः पञ्चरौच्याश्च भौत्याश्चागामिनस्त्वमी एतेषां विस्तरं भूयो मन्वन्तरपरिग्रहे वक्ष्येदेवानृषींश्चैव यक्षेन्द्राः पितरश्च ये उत्पत्तिं सङ्ग्रहं ब्रह्मन् श्रूयदामस्य सन्ततिः यच्च तत्पुत्राणां महात्मनां मनोस्वायं भुवस्यास्सन् दशपुत्रास्तु तत्समाः यैरियं पृथिवी सर्वाः सप्तद्वीपा सपर्वता स समुद्राकरवदी प्रतिवर्षं निवेशिता स समुद्राकरवदी प्रतिवर्षं त्रयधा युगे तथा प्रियव्रतस्य पुत्रायैस्तैः पौत्राय स्वयम्भुवस्य च प्रियव्रतात् प्रजावत्यां वीरात् कन्या व्यजायत कन्या साधुमहाभागा कर्दमस्य प्रजापदे कन्ये द्वे दशपुत्रांश्च सम्राट् कुक्षी च ते उभे तयो तयोर्वैभ्रादरशूराः प्रजापतिः समादश आग्निध्रो मेधातिथिश्च वपुष्मांश्च तथा परः ज्योतिष्मान्द्वितिमान्भव्यसवनः सप्त एव ते प्रियव्रतोऽभ्यषिञ्च सप्त सप्तसप्तसुपार्थिवान् द्वीपेषु तेन धर्मेण द्वीपांश्चैव निबोधमे जम्बुद्वीपे तथाग्निध्रं राजानं कृतवान् पिता प्लक्षद्वीपेश्वरश्चापि तेन मेधातिधिकृतः शाल्मलेस्तु वपुस्मन्दं ज्योतिष्मन्दं क्रौञ्चद्वीपे द्विधिमन्दं भव्यं शाकाह्वयेश्वरं पुष्कराधिपदिं चापि शवनं कृतवान् सुतं महावीतोदगिश्च पुष्कराधिपदे सुतौ द्विधा कृत्वा तयोर्वर्षं पुष्करे संन्यवेशयद भव्यस्य पुत्रा सप्ता सन्नामतस्तान्निबोधमे जलदश्च कुमारश्च सुकुमारो मनीवकः कुशोत्तरोधमेधावी सप्तमस्तु महाद्रुमह। तन्नामकानि वर्षाणि शागद्वीपे चकारसः तदा द्विधि मदः सप्तपुत्रास्तांश्च निबोधमे कुशलो मनुगश्चोष्णः प्रागारश्चार्थकारकः मुनिश्च दुन्दुभिश्चैव सप्तमः परिकीर्तितः तेषां तदा भवन ज्योतिष्मधक् कुशद्वीपे पुत्रनामाङ्गितानि वै तत्रापि सप्तवर्षापि तेषां नामानि मे शृणु उद्भिदं वैष्णवं सुरधं लम्बनं तद्धा धृदिमत चैव कापिलं चापि सप्तमम् वपुष्मदःसुधाः सप्त शाल्मलेशस्य चाभवन। श्वेतश्च हरितश्चैव जीमूदो रोहितस्तथा वैद्युदो मानसश्चैव केतुमान् सप्तमस्तथा तथैव शाल्मलेस्तेषां समनामानि सप्त सप्तमेधा तिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै येषां नामाङ्कितैर्वर्षैः प्लक्षद्वीपस्तु सप्तथा पूर्वं शाकभवं वर्षं शिशिरन् सुखोदयं। आनन्दं च शिवं चैव क्षेमकञ्ज ध्रुवं तथा प्लक्षद्वीपादिभुदेषु शाकद्वीपान्तिमेषु वै ज्ञेयः पञ्चसुधर्मश्च वर्णाश्रमविभागजः नित्यस्वाभाविकश्चैव अहिंसाविधिवर्धितः पञ्चस्वेतेषु वर्षेषु सर्वसाधारणस्मृतः अग्निध्राय पिता पूर्वं जम्बुद्वीपं ददौ द्विज तस्य पुत्रा बभूवुर्हि प्रजापतिसमानव ज्येष्ठो नाविरिधिख्यादस्तस्य किं पुरुषोऽनुजः हरिवर्षस्तृदीयस्तु चतुर्थो भूदिलावृतः वश्य पंचम पुत्रो हिण्यष्ट उच्यस्तमस्द्रश्वस्मृत नवम के दुमच त वर्ष पुरुषाद्यानि वर्जय्वा हिमाचल तेषां स्वभावदसिद्धिस्सुखप्रायाह्यन्तदः विपर्ययो न तेष्वस्ति जरामृत्युभयं न च धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः नवै वै चतुर्युगावस्था नार्तवाहृतवो न आग्नेद्रसूनोर्नाभेऽस्तु वृषभोऽभूत्सुतो द्विज वृषभात् भरतो जज्ञे वीरपुत्र सदाध्वरः सोऽभिषिच्यैर्षभपुत्रं महाप्रव्राज्यमास्थितः तपस्तेपे महाभागपुलहाश्रमसंश्रयः हिमा ह्विं दक्षिणं वर्षं भरताय पिधा ददौ तस्मात्तु भारतं वर्षं तस्य नाम्नहात्मनः भरतस्याप्यभूत्पुत्रसुमधिर्नामधार्मिकः तस्मिन् राज्यं समावेश्य भरतोपि वनं ययौ एतेषां पुत्रः पौत्रैस्तु सप्तद्वीभावसुन्धरा प्रियव्रतस्य पुत्रैस्तु भुक्त्वा स्वायम्भुवेन्दरे येष स्वायम्भुवः सर्गः कथितस्ते द्विजोत्तम पूर्वमन्वन्तरे सम्यक् किमन्यत् श्री यीमार्कंडेयपुराणे मन्वरकथनमिपचाशोध्याय ओ